गणेशपुराणं क्रीडाखण्डम् अध्यायं नैण्टि सवेन् मुनिरुवाच त्वया विनायको देवो मयूरेश्वरसञ्जितः तदो गुणेशनाम्ना मे महिमायं निरूपितः सकधं पाप तन्नाम किं च तेन कर्म तन्मे समाचक्ष्व साम्प्रतं विश्वसृग्विभो क उवाच यथा तेन कर्म मयूरेश्वरनाम च प्रापद्विनायको देवो निरूपिष्येऽखिलं तव पातालभवने शेषसभामध्यगदो भवद वासुकिप्रमुखैः सर्वैः समन्तात्परिवारितः तदः कदृःसमायाता तेजोरूपा सुरूपिणी मुक्ता मणियुधं चारुबिभ्रती कञ्चुकं शुभं बिम्बोष्ठी चन्द्रवदना दिव्यभूषाम्बरावृता तां दृष्ट्वा जननीं शेषो वा सुकिप्रमुखाश्चये ने मुर्मादर् बहुदिनैरभवद्दर्शनं तव काङ्क्षन्ते दर्शनं सर्वे त्वं तु निष्ठुरदां गदाम् इत्यूचुस्तां करे धृत्वा स्थापयन् पैत्र्य आसने पुपूजुःपरया भक्त्या तदशेषो ब्रवीतुतां शेष उवाच त्वम् माधकश्यपस्यापि पत्नी चारुतरा सती सर्वविद्यानिधानस्य षष्टिस्थित्यन्धकारिणः ब्रह्मादयो देवगणस्तत्त्वं यस्य न वै विभुः त्वम् चापि सखसा शापानुग्रहे चक्षमाह्यसि तव पुत्र वयं सा कथं त्वमिहा प्रयोजनम् कद्रुरुवाच विनाप्रयोजनम् प्रयोजनं पुत्रकोपि किञ्चन तच्चदे कथयिष्येऽहं शृणु सादरमात्मजा विनता मे सपत्नीया पुत्रपक्षिनाम् तस्य दर्शनकाङ्क्षा मे कदाचित् सं बभूवः अनाद्रदातया अहं तु तद्गृहं सहसा गदा नास्सनं न च सत्कार्यं स्मरन्ती सा पुत्रमादिशत तेन चाकर्षिदवेणीविवस्त्रासंकृताक्षणाद मामुवाचमहादुष्टे नावलोक्यं मुखं तव मम मातुस्तु मा दासीत्वं पूर्वमासीकृतं त्वया तदा न करुणालेशोधू मनसि कर्हि इतो गच्छन चेत् प्राणान् गृहीष्यामि महाखले श्रुत्वा तदीयवाक्यानि दुःखितासम् फणीश्वर आक्रन्दम् परमं प्राप्ता प्रणत्यागेदु निश्चिता आगतासं ततो युष्मद्दर्शनार्थं सुदुःखिताः यदि वो मयि भक्ति स्यात् क्रियतां मम सत्पुत्रा यदि मान्यासं तदा तस्या विनाशनं कर्तव्यं च सपत्न्या तदो हृदि सुखं भवेद् क उवाच एवमाकर्ण्य तद्वाक्यं शेषो रोषसमन्विताः जज्ज्वालसः सा वाक्निर्हृदेनेव प्रदीपितः मम माधुकृता पीडा विनता तनयैर्यदी तदाहं तत्प्रतीकार्यं करिष्यामि न संशयः एवमुक्त्वा स शेषोध वासुकिप्रमुखैर्युदः तत्र गन्तुं मनश्चक्रे यत्र सा भवद वासुकिरुवाच अहमेव गमिष्यामि कोडि विनदामानयिष्यामि तिष्ठत्वं भुजगाधिप क उवाचा यवमुक्त्वा यययौ शीघ्रं वासु किर्विनदाश्रमम् असङ्ख्यानुरगान् दृष्ट्वा विभाय विनदा तदा तदैव वेष्टिदा सर्पैक्रूरैर्दुष्टस्वभावकैः निन्युस्ते शेषनिकडं सा च तदा विनदोवाच किमर्थं बन्धनं कृत्वा मम नेतुं समुद्यताः अपराधविहीनाया प्रापिष्ठ गतताशु मे मम पुत्रस्यानुभवो ज्ञातोऽस्ति सर्वपन्नगैः अदो मुञ्जन्दुमाम्नो चेत् स संहारम् करिष्यति क उवाच दार्ष्ट्यम् तेषाम् समीक्ष्यैव सस्मारगरुडम् तु सोऽपि ज्ञात्वा स्मृतिम् तस्य आगदः पक्षिभिः सह श्येनः सम्पातिरथ च जडायुः पक्षिपुङ्कवः येषां पक्षसमीरेण चकम्बे भुवनत्रयम् भुजगास्तेदु सर्वेऽपि वमद्विषकणाभवन् युद्धमासीन्महाघोरम् भुजगेन्द्रपदत्रिणां तदो जडायुम् सम्पादिं श्यनं बद्ध्वानयं स्तुते मा दुः स्मृते कम्पयन् जगदीं सर्वां पादयन् द्रुमपर्वतान् तद्गन्धं भुजगाख्रात्वा पलायनपराययुः पक्षवादेन गगने बभ्रमुर्भुजगाः परे मोक्तादुविनदा बन्धा स्वस्थानं गन्तुमुद्यता तां दृष्ट्वा वा क्रुद्धो दहन् व्योमवमन्विष्यं पक्षापादेन गरुडो पादयद्भूतले च दं विनतादुगदावेकास्वस्था स्वस्थानमुत्तमं प्रतापं वा सुखेर्धृष्ट्वा गरुडसूक्ष्मरूपधृकर् विनतां रक्षितुं यादो यादे तस्मिं चुकोपः वास्सुकिर्विषमत्यन्दमासृज्जगदीं दहन्नाकलोकं निनायाशुबध्वा तान्विवरे क्षिपद पिता यद्वारं शिलया तदो मादरमभ्यगाद उदन्तं सर्वमाचख्यौ मात्रे शेषाय चारुधिः शुश्रोच विनता श्रुत्वा बद्ध्वा नीतान् सुधां स्तुतान् प्रययौ कश्यपं शीघ्रं नमस्कृत्या ब्रवीरिदं विपरीतमिदं जातं प्रत्यक्सूर्योदयो यथा गृहे स्थितां मामनयत्सहसा वासुकी पृष्ठदोऽनुययौष्येनो जडायुर्मोचितुं च मां सम्पादि सर्पशङ्खांस्ते मारयामासु रोजसा पराजितेषु तेष्वाशु भुजगर्बहुभिर्मुने गरुडं चास्मरं तेन जित्वा सर्पगणां स्तुतान् मोचिता चाणुरूपेण तेनाप्यागमनं कृतं जडायुस्तेन संपादिष्येनो वासुकिना बलाद सुखिना बलाद नीतापादालविवरेऽपि धायस्थापिता दृढं गमिष्यन्ति मम प्राणां तान्विना निश्चितं मुने यदावद्दुःखचाप्ताकं त्वयि नाथे सदि प्रभो क उवाच जिधिश्रुत्वा प्रियावाक्यं प्राहतां कश्यपो मुनिः मुनिरुवाच मा चिन्तां कुरु भद्रे त्वं व्येतु मानसो ज्वरः ऋतुं खा। ते कम् प्रदास्यामि पुत्रस्तेऽन्यो भविष्यति अभेद्यमण्डं वज्रेण पार्वत्या यदि बालकः क्रीडन् भेत्स्यति पादाभ्याम् ततः पुत्रो भवेत् तव सनीलकण्ठो बलवान्नीलकण्ठ इवापरः श्रवणास्तस्य शब्दस्य भुजगास्ते परा भवं यास्यन्ति च गुणेशोऽपि तमारुह्य भुवो भरं हरिष्यति तदा पुत्रा मोक्ष्यन्ते नागबन्धनाद् एवमुक्त्वा मुनिस्तस्यैरहो नीत्वा ऋदुं ददौ हर्षात हर्षात्काननं जन्तुवर्जितं कालेन शुषुवे चाण्डमभेद्यं वज्रपर्वतैः मृद्भाण्डे वल्कलैर्वेष्ट्य निक्षिप्याण्डं स्थिरा भवत् भूमि द्रव्यं भुजगो य भूमिगद्रव्यम भुज गो बलवणेशणे क्रीड़ाखंडे सप्तनव्या